चमकखनम् अनुवाकम् इलवन् ये का च च चैकैका च मे मे चैकैका च मे च मे तिस्रश्च च मे तिस्रश्च तिस्रश्च चतिस्रस्तिस्रश्च मे मे चतिस्रस्तिस्रश्च मे च मे मे च च मे पञ्च पञ्च मे च पञ्च मे पञ्च पञ्च मे पञ्च च पञ्च मे पञ्च च पञ्च च पञ्च पञ्च चमे मे च पञ्च पञ्च चमे चमे मे चमे सप्त सप्तमे चमे सप्त मे सप्त सप्तमे मे सप्त च सप्तमे मे सप्त च सप्त च सप्त सप्त च मे मे च सप्त सप्त च मे चमे मे च च मे नव नव मे च च मे नव मे नव नव मे मे नव च नव मे चमे मे च नव चमे च मेमे चम एका दशैका दशमे चम एकादश मयेकादशैका दशमेम एकादश च चैकादशमेम एकादश च एकादश च च चैका द चमे चैकाद चैका चमे चमे च च च मे त्रयोदशत्रयो दशमे च च च च च त्रयोदश मे त्रयोदशत्रयोदशमे त्रयोदश च त्रयोदश चत्रयोदश त्रयोदश चमे चत्रयोदश त्रयोदश च मे त्रयो दशे दश चमे च पञ्चदश पञ्चदश मे पञ्चदश मे पञ्चदश पञ्चदश पञ्चदश च पञ्चदश मे पञ्चदश च पञ्चदश च पञ्चदश पञ्चदश च पञ्चदश पञ्चदश चमे पञ्चदशेधि पञ्चदश चमे च च सप्तदश सप्तदश मे च च मे सप्तदश मे सप्तदश सप्तदशमे मे सप्तदश च सप्तदश मे मे सप्तदश च सप्तदश च सप्तदश सप्तदश च मे मे च सप्तदश सप्तदश मे सप्तदशदि सप्तदश चमे मे च च मे नवदश मे च मे मे नवदश मे मे मे नवदश च नवदश च नवदश नवदश च मे मे शनवदश नवदश च मे नवदश दिनव दश च मे मे च च म ये कविगुं मे चच म ये कविगुं सदिहि म मे म ये गविगुं सदिश्च चै कविगुं शदिर् मे मा विगुंशदिरे गविगुं सदिश्च मे मे चैगविगुं सदिरे गविगुं सदिश्च मे ये सदिरित्येक विगुं सदिः च मे मे च त्रयो विगुंशदिर्मे च मेत्रयो विगुंशदिः मेत्रयो विगुंसदित्रयो विगुंसदिर्मे मेत्रयो विगुंसदिश्च चत्रयो विगुंशदिर्मे मेत्रयो विगुंसदिश्च त्रयो वेगं सदिश्चात्रयो वेगं सदिस्त्रयो वेगं सदिश्च मे मे चत्रय वेगं सदिस्त्रयो वेगं सदिश्च मे त्रयो वेगं सदिरिदेत्रयः वेगं सदिः च मे मे च च मे पञ्चवेगं सदिः पञ्चवेगं सदेर् मे च मे पञ्चवि गुं सदि मे पञ्चवि गुं सधि पञ्चवि गुं सदेर् मे मे सदिश्च मे मे च पञ्चविगुंशदि पञ्चविगुंशदिश्च मे पञ्चविगुंशदि पञ्चविगुंशदिः च मे मे च च मे मे सप्तवि गंशादे सप्तवे गंशादे मे मे सप्तविंशादिश्च च सप्तवि गंशादे मे मे सप्तविगंशदिश्च सप्तविंशदिश्च च सप्तविंशदे सप्तविंशादिश्च मे मे च सप्तविंशदे सप्तविगंशदिश्च मे सप्तवि गुंशदि सप्तविगुंशदिः चमे मे च चमे नवविगुंशदेर् मे च च मे नववि गुंशदिः मे मे नवविगुंशदिश्च नवविगुंशदिश्च च नवविगुंशदिर्नवविगुंशदिश्च मे मे च नवविगुंशदिर्नवविगुंशदिश्च मे नवविगुंशदि नव च मे मे च च मयेगतृगुंश दे चच मयेगतृगुंशद मयगतृगुंशदे गतृगुंशन् मे मयेगतृगुंशच्च चैगतृगुंशन् मेम ये गतृगुंशच्च ये गृगुंशच्च चैगतृगुं सदेगतृगुंशच्च मे मे चैगतृगुं शदेगतृगुंशच्चमेगत्रिगुं शदित्येगत्रिगुंशद च मे मे च च मे त्रयस्त्रिगुंशत्त्रयस्त्रिगुंशन् मे च च त्रि गं शत्रयस्त्रियस्त्रेस्त्रमे त्रयस्त्रयस्त्रे गंशच्चत्रैयस्त्रे गं शत्रैयस्त्रे गंशच्च मेमे चत्रयस्त्रे गं मे त्रयस्त्रिगुं सदि त्रयः त्रिगुं सद च मे मे च च मे मे च मे चतस्रः च चदस्रश्चदस्रश्च मे मे च चदस्रश्च मे च मे मे च च मेष्टावष्टौ मे च च मे मे चाष्टवष्टौ च मे च मेमे च द्वादश द्वादशमे च द्वादश मे द्वादश द्वादशमे मे द्वादश च द्वादश मे द्वादश च द्वादश च च द्वादश द्वादश चमे च द्वादश द्वादश षोडश षोडश षोडश मे षोडश च षोडश च षोडश षोडश चमे मे षोडश षोडश चमे चमे मे च मे विगुं स दिर्विगुंशदिर् मे च मे विगुंशदिहि मे विगुंश दिर्विगुंशदिर् मे मे विगुं सदिश्च श वे गुं शादेर् मे मे वेगोम शादिश्चा वेगं शादिश्चाचा वेगं मे मे च मे चादर वेगम शादेश चादर वेगोम शादे मे मे चादर वेगोम शादेश चा चादर मे मे चादर वेगं शादेश्चादर वेगं शादेश चा चादर वेगोम शादेश चादर मे मे चर वेगम शादेश चादर वेगम मे चतुर्विगुं सदिरिधि चतुः विगुं सतिः च मे मे च च मेष्ठा विगुं सदिरष्टा विगुं सदिर् मे च च मेष्ठा विगुं चदिर्मे मेष्टा विगुंशदिश्च अष्टा विगुंसदिश्च चाष्टा विगुंशदिरष्ट विगुंसदिश्च मे मे चाष्टा विगुंशदिरष्टा च मे मे चचमे द्वा मे चच मे मे द्वा त्रिगंषद्वा त्रिगुंशन् मे मे द्वा त्रिगुंशच्च षद्वातृगं षद्वातृगं षच्चमे मे छद्वातृगं षड्वातृगुं सच्च मे च मे मे चच मे षटुं मे षटुं षद् मे षटत्रिगुं षटत्रिगुं क्षत्रिगं सन्मे षटत्रिगुं षच्च षत्रिगुं षच्च षत्रिगुं षटत्रिगुं चच मेमे जषत्रिगुं षटत्रिगुं सच्च मे क्षत्रिगं षिधि षडत्रिगुं षड च मे चचमे चत्वारि गुं षट्चरि चचमे चत्वारि गुं मे चत्वारि गं षट्चत्वारि गुं शन् मे मे चत्वारि मे चत्वारि गुं षट् चत्वारि च चत्वारि गुं षट् चत्वारि गुं षट् च मे मे च चत्वारि गुं सच मे चतुश्चत्वारिगुं ष मे चतुश्चत्वारिगुं षटतुश्चत्वारिगुं षण्मे चतुश्चत्वारिगुं षट्चतुश्चत्वारिगुं षण्मे चतुश्चत्वारिगुं षट्चतुश्चत्वारिगुं चतुश्चत्वारिगुंषच्चतुश्चत्वारिगुंषच्च मे मे च चतुश्चत्वारिगुंषच चतुश्चत्वारिगुंषच्च मे शन्मे च च मेष्ठ चत्वारि गुंशद मेष्टा चत्वारि गुंश दष्टा चत्वारि गुंशन्मे मेष्ठ चत्वारि गुंशच्च चाष्टा चत्वारि गुंशन्मे मेष्ठ चत्वारि गुंशच्च अष्ट चाष्टा चत्वारि दष्ट चत्वारिगुं सच्च मे चष्ट चत्वारिगुं दष्ट चत्वारिगुं सच्च मे अष्ट चत्वारिगुं सदित्यष्ट चत्वारिगुं सद च मे मे च च मे मे वाजो वाजो मे मे वाजश्च च वाजो मे मे वाजश्च वाजश्च च वाजो वाजश्च प्रसवप्रसवश्च वाजो वाजश्च प्रसवः च प्रसवप्रसवश्च च प्रसवश्च च प्रसवश्च च प्रसवश्च प्रसवश्च च प्रसव प्रसवश्चापिजोऽ अपिजश्च प्रसव प्रसवश्चापिजः प्रसव इधि प्रसवः चापिजो अपिजश्च चापिजश्च च पिजश्च चापिजश्च अपि जश्चापि जो अपि जश्चक्रदक्रदश्चापि जो अपि जश्चक्रदो अपि जत्यापि जः चक्रधक्रदोश्च चक्रदश्च चक्रदश्च चक्रतुश्च क्रदोश्च चक्रदक्रदश्च सो वो वश्चक्रदोक्रदोश्च sova cha sovas sovas chacha sovas chacha sovas chacha sovas sovas chacha sovas sovas sovas murdamo urda chacha sovas chacha murdha cha mordamo urda chacha mordha chacha mordha chacha mordha cha mordha चचमूर्धा मूर्धा चव्यो व्यस्निहश्च मूर्ध मूर्धा चव्यो व्यश्नि यश्चव्यश्चव्यस्नि यश्चचव्यस्नि यश्च व्यस्नि यश्चव्यस्नियो व्यस्नि यश्चान्द्यायन आ आन्द्यायनश्च व्यश्नियो व्यश्नियश्चान्द्यायनः व्यस्निय दिवी अश्नियः चान्द्यायन आ आन्द्यायनश्च चान्द्यायनश्च चान्द्यायनश्च चान्द्यायनश्च आन्द्यायनश्च चान्द्यायन आन्द्यायनश्चान्द्यो अन्ध्यश्चान्द्यायन आन्द्यायनश्चान्द्यः चान्द्यो अन्ध्यश्च चान्द्यश्च चान्द्यश्च चान्द्यश्च अन्ध्यश्च चान्द्यो अन्ध्यश्च भवनो भवनश्चान्द्यो अद्यश्च भवनः च भौवनो भौवनश्च भवनश्च भौवनश्च भवनश्च भवनश्च भौवनो भवनश्च भुवनो भुवनश्च भवनो भौवनश्च भुवनः च भुवनो भुवनश्च भुवनश्च भुवनश्च च भुवनश्च भुवनश्च च भुवनो भुवनश्चाधिपदिरधिपदिश्च भुवनो भुवनश्चाधिपतिः चाधिपदिरधिपदिश्च चाधिपदिश्च चाधिपदिश्च चाधिपदिश्च अधिपदिश्चाधिपदिरधिपतिश्च अधिपदिरित्यधिपदिः चेति च